अथ त्रयोविंशः सर्गः तत्प्रयातम् बलम् घोरमशिवम् शोणितोदकम् अभ्यवर्षन्महाघोरस्तु मुलो गर्दभारुणः निपेतुस्तु रगास्तस्य रथयुक्ता समे पुष्पचिते देशे राजमार्गे यदृच्छया श्यामम् अलातचक्रप्रतिमम् प्रतिगृह्य दिवाकरम् ततो ध्वजमुपागम्य हेमदण्डम् समुच्छ्रितम् समाक्रम्य महाकायस्तस्थो गृध्रः सुदारुणः जलस्थानसमीपे च समाक्रम्य खरस्वनाः विस्वरान् विविधान्नादान् माम् सादा मृगपक्षिणः व्याजह्रुरभिदीप्तायाम् दिशि वैभैरवस्वनम् अशिवम् यातु धानानाम् शिवा घोरामहास्वनाः प्रभिन्नगज सङ्काशास्तोयशोणितधारिणः आकाशम् तदनाकाशम् चक्रुर्भीमाम्बुवाहकाः बभूवतिमिरम् घोरमुद्धतम् रोमहर्षणम् दिशो वा प्रदिशो वापि सुव्यक्तम् न चकाशिरे क्षतजार्दसवर्णाभा सन्ध्याकालम् रम् चाभिमुखम् नेदुस्तदा घोरामृगाः खगाः कङ्कगोमाय गृध्राश्च चुक्रशुर्भयशंसिनः नित्या शिवकरा युद्धे शिवाघोरनिदर्शनाः ने दुर्बलस्याभिमुखम् ज्वालोद्गारिभिराननैः कबन्धः परिघाभासो दृश्यते भास्करान्तिके प्रवातिमारुतः शीघ्रम् निष्प्रभो भूद्दिवाकरः उत्पेतुश्च विना रात्रिम् खद्योतसप्रभाः खद्योतसः प्रभाः संलीनमीनविहगानलिन्यः शुष्कपङ्कजाः तस्मिन्क्षणे विना पुष्पफलैर्द्रुमाः उद्धूतश्च विना रेणुर्जलधरारुणः चीचीकूचीति उल्काश्चापि स निर्घोषाणिपेतुर्घोरदर्शनाः प्रचचालमही चापि शैलवनकानना खरस्य च रथस्थस्य नर्दमानस्य धीमतः प्राकम्पतभुजः सव्यः स्वरश्चास्यावसज्जत सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः ललाटे च रुजोजात तान् समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान् अब्रवीद्राक्षसान् सर्वान् प्रहसन्सखरस्तदा महोत्पातानि मान् सर्वानुत्थितान् घोरदर्शनान् न चिन्तयाम्यहम् वीर्याद् बलवान् दुर्बलानिव तारा अपि शरैस्तीक्ष्णैः पातयेयम् न भस्तलात् मृत्युम् मरणधर्मेण सङ्क्रुद्धो योजयाम्यहम् राघवन्तम् बलोत्सिक्तम् भातरं चापि लक्ष्मणम् महत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे यन्निमित्तम् तु रामस्य लक्ष्मणस्य विपर्ययः स कामा भगिनी मे स्तु युष्माकमेतत्प्रत्यक्षम् नानृतम् नानृतं देवराजमपि क्रुद्धो मत्तैरावतगामिनम् वज्रहस्तम् रणे हन्याम् किम् पुनस्तौ च मानवौ सा तस्य गर्जितम् श्रुत्वा राक्षसानाम् महाचमोः प्रहर्षमतुलम् लेभे मृत्युपाशावपाशिता समेयश्च महात्मानो युद्धदर्शनकाङ्क्षिणः ऋषयो देव गन्धर्वाः सिद्धाश्च सहचारणैः समेत्यचोचुः सहितास्तेऽन्योन्यम् पुण्यकर्मणः स्वस्तिको ब्राह्मणेभ्यस्तु लोकानान्ये च सम्मताः जयताम् राघवो युद्धे पौलस्त्यान् रजनीचरान् चक्रहस्तो यथा विष्णुः सर्वानसुरसत्तमान् एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः जातकौतूहलास्तत्र विमानस्थाश्च देवताः ददृशर्वाहिनीम् तेषाम् राक्षसानाम् गतायुषाम् रथेन तु वेगात् सैन्यस्याग्राद्विनिःसृतः श्येन गामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः दुर्जयः करवीराक्षः परुषः कालकार्मुकः हेममाली महामाली सर्पास्योरुधिराशनः द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् महाकपालस्थूलाक्षः प्रमाथस्त्रिशिरास्तथा चत्वार एते सेनाग्रे दूषणम् पृष्ठतोऽन्वयुः वेगा भी कांक्षिणी सुदारुणा राक्षस वीरसेना तौराजपुत्रो पेता माला ग्रहा चंद्र सूर्य इशे श्रीमद्राणे वाक आदि का्ये तोश